अथाष्ट चत्वारिंशः सर्गः ततस्तु रक्षोऽधिपतिर्महात्मा हनूमताक्षे निहते कुमारे मनः समाधाय सदेव कल्पम् समादिदेशेन्द्र जितम् सरोषः त्वमस्त्रविच्छस्रभृताम् वरिष्ठः सुरासुराणामपि शोकदाता सुरेषु सेन्द्रेषु त्वदस्त्रबलमासाद्य ससुराः समरुद्गणाः न शेकुः समरे स्थातुम् सुरेश्वर भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः न तेऽस्त्य शक्यम् समरेषु कर्मणाम् न तेऽस्त्य कार्यम् अतिपूर्वमन्त्रणे न सोऽस्ति कश्चित् त्रिषु सङ्ग्रहेषु न वेदयस्त्रेऽस्त्रबलम् बलम् च ममानुरूपम् तपसो बलम् च संयुगे न त्वाम् समासाद्यरणमर्दे गच्छति निश्चितार्थम् निहताः किङ्कराः सर्वे जम्बुमारीचराक्षसः अमात्यपुत्रा वीराश्च पञ्चसेनाग्रगामिनः बलानिसु सुसमृद्धानि साश्वनागरथानि च सहोदरस्ते दयितः कुमारोक्षश्च सूदितः न तु इदम् च दृष्ट्वा निहतम् महद्बलम् कपेः प्रभावम् च पराक्रमम् च त्वमात्मनश्चापि निरीक्ष्य सारम् कुरुष्व वेगम् स्वबलानुरूपम् बलावमर्दस्त्वयि तथा समीक्ष्यात्मबलम् परम् च वरिष्ठ न वीरसेन गणशश्च वन्ति न वज्रमादाय विशालसारम् न मारुतस्यास्ति गति प्रमाणम् न चाग्निकल्पः करणेन हन्तुम् तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्म साम्याद्धि समाहितात्मा स्मरंश्च न हल्वियम् मतिश्रेष्ठयत्त्वाम् सम्प्रेषयाम्यहम् इयम् च राजधर्माणाम् क्षत्रस्य च मतिर्मता नानाशस्त्रेषु सङ्ग्रामे वैशारद्यमरिन्दमा अवश्यमेव बोद्धव्यम् काम्यश्च विजयोरणे ततः निशम्य प्रदक्षिणम् दक्षसुत चकार भर्तारमतित्वरेण रणाय वीरः प्रतिपन्नबुद्धिः ततस्तैः स्वगणैरिष्टैरिन्द्रजित् प्रतिपूजितः युद्धोद्धतकृतोत्साहः सङ्ग्रामम् सम्प्रपद्यत श्रीमान् पद्मविशालाक्षो राक्षसाधिपतेः सुतः निर्जगाम महातेजाः समुद्र इव पर्वणि सपक्षिराजोपमतुल्य वेगैर्व्याघ्रैश्चतुर्भिः स तु तीक्ष्णदम् श्रैः रथम् समायुक्तमसह्य सतस्य रथ निर्घोषम् ध्यास्वनम् कार्मुकस्य च निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत् इन्द्रजित् चापमादाय शितशल्यांश्च सायकान् हनूमन्तमभिप्रेत्य जगामरण जात हर्षेरणाय निर्गच्छति बाणपाणौ विश्वश्च सर्वाः कलुषा बभूवुर्मृगाश्च रौद्रा बहुधा विनेदुः समागतास्तत्र तु नागयक्षा महर्षयश्च क्रचराश्च सिद्धाः नभः समावृत्य च पक्षि सङ्घा विनेदुरुच्चैः दृष्ट्वा तूर्णमिन्द्रध्वजम् कपिः न नाद इन्द्रजित् सरथम् दिव्यमाश्रितश्चित्रकार्मुकः धनुर्विस्फारयामास तटि दूर्जित तौरण निर्विशङ्कौ कविश्च रक्षोऽधिपते स्तनोजः सुरासुरेन्द्राविव बद्धवैरौ शर प्रवेगम् यः न प्रवृद्धश्च चार मार्गे पितुरः प्रमेयः ततः वज्रसमान वेगान् ततः सतत्स्यन्दन च विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषम् पुनरुत्पपात शराणामन्तरे श्वासु व्यावर्तत महाकपिः हरिस्तस्याभिलक्ष्यस्य मोक्षयन् लक्ष्य सङ्ग्रहम् शराणामग्रतस्तस्य पुनः समभिवर्तत प्रसार्य हस्तौ ुभौ वेग सम्पन्नौ सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् हनुमतो वेद न राक्षसोऽन्तरम् न मारुतिस्तस्य महात्मनोऽन्तरम् परस्परम् निर्विषहौ बभूवतु सम्पतत्सु जगामचिन्ताम् महतीम् महात्मा समाधि संयोग समाहितात्मा ततो मतिम् राक्षस राजसोऽनुश्चकार तस्मिन् हरिवीरमुख्ये अवध्यताम् तस्य कपेः समीक्ष्य कथम् निगच्छेदिति निग्रहार्थम् ततः पैतामहम् वीरः सोऽस्त्रमस्त्रविदाम्बरः सन्दधे प्रति अवध्योय ज्ञावा तमस्ेस्त्र तत्वराह महाबा मज्रजि बदस्तोस्त्रेण राक्षसे नभविचेच पहीतले प्रभो प्रभागताप पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रम् चाभिमन्त्रितम् हनूमांश्चिन्तयामास वरदानम् च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् इत्येवमेवम् विहितोऽस्त्रबन्धो मयात्मयोनेरनुवर्तितव्यः सवीर्यस्त्र से कपिर्चार्य पितामुग्रहन विमोक्षशक्ति पिचित पितामहाजात स्म अस्े हिब्ध्य भय मम न जायते पितामहेंद्राभ्यास ग्रहणे चापंुदर्शनम राक्षसेन्द्रेण संवादस्तस्माद् गृह्णन्तु माम् परे स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः परैः प्रसह्याभिगतैर्निगृह्यमनादतैस्तैः परिभत्स्यमानः ततस्ते राक्षसा दृष्ट्वा विनिश्चेष्टमरिन्दमम् बबन्धुः संहतैः सरोचयामास परैश्च बन्धम् प्रसह्य वीरैरभिगर्हणम् च कौतूहलान् माम् यदि राक्षसेन्द्रो द्रष्टुम् यवस्येदिति निश्चितार्थः सबद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् अस्त्रबन्धस्य हि न बन्धमनुवर्तते अथेन्द्रजित्तम् विचार्य वीरः कपि विमुक्तमस्त्रेण जगामचिन्तामन्येन बद्धोऽप्यनुवर्ततेऽस्त्रम् अहो महत् कर्म कृतम् निरर्थम् न राक्षसैर्मन्त्रगतिर्विमृष्टा पुनश्च नास्त्रे विहतेऽस्त्रमन्यप्रवर्तते संशयिता स्म सर्वे अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यते कृष्यमाणस्तु रक्षोऽभिस्तैश्च बन्धैर्निपीडितः हन्यमाणस्ततः क्रूरै राक्षसैः कालमुष्टिभिः समीपम् राक्षसेन्द्रस्य प्राकृष्यत स वानरः अथेन्द्रचित्तम् प्रसमीक्ष्य मुक्तमस्त्रेण बद्धम् द्रुमचीरसूत्रैः जदर्शयत्तत्र महाबलम् तम् हरिप्रवीरम् स गणाय राज्ञे तम् मत्तमिव मातङ्गम् कपिवरोत्तमम् राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् कोऽयम् कस्य कुतो वापि किम् कार्यम् कोऽभ्युपाश्रयः इति राक्षसवीराणाम् दृष्ट्वा सञ्जज्ञिरेकथाः हन्यताम् दह्यताम् वापि भक्ष्यतामिति चापरे राक्षसास्तत्र सङ्क्रुद्धाः परस्परमथा ब्रुवन् अतीत्य मार्गम् सहसा महात्मा स तत्र रक्षोऽधिपपादमूले ददर्श राज्ञः परिचार वृद्धान् गृहम् महारत्न विभूषितम् च स ददर्श कपिसत्तमं। रावणः कृष्यमानमितस्ततह। सत्तमम् रक्षाभिर्विकृताकारैकृष्यमाणमितस्ततः तेजो बल समायुक्तम् तपन्तमिव भास्करम् सदोष संवर्तितताम्रदृष्टिर्दशाननस्तम् कपिमन्ववेक्ष्य अथोपविष्टान् कुलशील वृद्धान् समादिशत्तम् प्रति मुख्यमन्त्रीन् यथा क्रमन्तैः स च मूलमादौ निवेदयामास त्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः